श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहि फट् स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहि फट् स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हं शुकशान्तिं देहि फट् स्वाहा ीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन्पट् स्वाहा ॐ श्रीं सर्वपित्र श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहिपट् स्वाहा ीं सर्वपित्रदोषनिवारणाय क्लेशं ीं सर्वं ॐ श्रीं सर्वे ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् ह्शुकशान्तिम् हन देहि फट् स्वाहा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 श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहिफट् स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहिपट् स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहिफट् स्वाहा ीं सर्वपित्र श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन्पट् स्वाहा Paid, Om, triun, varana, um, ीं सर्वपित्रदोषनिवारणाय <hatten> क्लेशं Estado, I hum. I hum mm ीं सर्वं स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्ति श्रीं सर्वे स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिम् देहि फट् स्वाहा श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् ॐ श्रीं सर्वपित्रं देहिफट् स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहिफट् स्वाहा ीं सर्वं श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् फट् स्वाहा ीं सर्वं ॐ श्रीं सर्वे ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहि फट् स्वाहा श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहिपट् स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहिफट् स्वाहा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 श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् देहि फट् स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहि फट् स्वाहा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 ीं सर्वपित्रीं सर्वं देहिपट्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहि फट् स्वाहा ीं सर्वं स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिम् देहि फट् स्वाहा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 ीं सर्वं स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहि फट् स्वाहा ीं सर्वदोषनिवारणाय क्लेशं श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहि फट् स्वाहा श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् ॐ श्रीं सर्वपित्र ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहिफट् स्वाहा ीं सर्वं स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन्पट् स्वाहा श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् ीं सर्वपित्रदोषनिवारणाय क्लेशं That, miracle, that, ीं सर्वं स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहि फट् स्वाहा ीं सर्वे श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहि फट् स्वाहा ीं सर्वं स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् ीं सर्वं स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन्पट् स्वाहा हन श्रीं सर्वदोषनिवारणाय क्लेशम् श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशम् हन् हन् शुकशान्तिम् देहि फट् स्वाहा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 श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन्पट् स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं स्वाहा ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिं देहि फट् स्वाहा ीं सर्वीं सर्वे ॐ श्रीं सर्वपित्रदोषनिवारणाय क्लेशं हन् हन् शुकशान्तिम् देहि फट् स्वाहा